हरि ओम् श्री सीतारामचन्द्राभ्याम् नमः अथ श्रीमद् अध्यात्मरामायणे बालकाण्डे पञ्चमः सर्गः श्रीमहादेव उवाच तत्र कामाश्रये रम्ये कानने मुनि सङ्कुले उषित्वा रजनीमेकाम् प्रभाते प्रस्थिता शनैः सिद्धाश्रमम् गता सर्वे सिद्धाचारण विश्वामित्रेण सन्देष्ट मुनयस्तनिवासिनः पूजां च महतीं चक्रु रामलक्ष्मणयोर्धृतम् श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यतां दर्शय स्व महाभाग कुतस्थो राक्षसाधम तथेत्युक्त्वा मुनिर्यष्टुम् अरेभिः मुनिभिः सह मध्याह्ने दृशा ते तौ राक्षसौ कामरूपिणौ वारीच्य सुबाहुश्च वसन्तो रुधिरास्थिनी रामोऽपि धनुराधाय गौवाणौ सन्दधे सुधी आकर्णान्तं समाकृष्य विसदर्ज पृथक् तयो, तयो एक तुमारीचं भ्रामयन् शतयोजनम् पातयामास जरधौ तदद्भूतमिव भवेत् द्वितीयोऽग्ने मयो बाणः सुबाहुम् अजयक्षणात् अपरे लक्ष्मणेनाशु हस्तात् तदनुयायिनः पुष्पभय्याकिरन् देवा राघवम् स लक्ष्मणम् देवदन्धुभयो नेदु तुष्टुः विश्वामित्रः स्वज्य पूजाहं अंके निवेश निवेशजालिङ्ग्य भक्त्या बाष्पाकुलेक्षिणः भोजयित्वा सह भ्रात्रा रामं पक्व फलादिभिः पुराणवाक्यैर्मधुरे दिनाय दिवसत्रयं चतुर्थे हनि सम्प्राप्ते कौशिको रामम् बब्रवीत् राम राम महायज्ञम् द्रष्टुम् गच्छामहे वयम् विदेहे राजनगरे जनकस्य महात्मनः तत्र माहेश्वरम् चापम् अस्ति नस्तम् पिनाकिना द्रक्षसे तम् महासत्तम् पूज्यसे जनकेन च इत्युक्त्वा मुनिभित्ताभ्याम् ययो गङ्गा समीपगम् गौतमस्य आश्रमम् पुण्यम् यत्रा हल्यास्ति ते दिव्य पुष्प फलोपेत पादपै परिवेष्टम् मृगपक्षे गणहीनं नाना जन्तु विवर्जितम् दृष्टो वाचमधिं श्रीमान् रामो राजीव लोचनः कथय राश्रमपदम् भाति भास्व आह्लादेति मे चेतो भगवन् ब्रूहि तत्त्वतः विश्वामित्रोवाच शृणो रामः पुरावृत्तम् गौतमो लोक विश्रुतः सर्वधर्मभृतां श्रेष्ठ तपसाराधयन् हरिं तस्मै तप ब्रह्मादलोकन्याम् अहल्याम् लोकसुन्दरीम् ब्रह्मचर्येण सन्तुष्ट शुश्रूषणपरायणाम् तया सार्धम् इहावाचित् गौतम तपसाम्बरः चक्रस्तुताम् दर्शयितुम् अन्तरम् प्रेतुरन्वहम् कदाचित् मुनिवेषेण गौतमे निर्गते गृहात् दर्शयित्वाथ निरगात् त्वरितं मुनिरप्यगात् दृष्ट्वा यन्तम् स्वरूपेण मुनिर्परमकोपनः पप्रत्यगस्त्वं दुष्टात्मन् मम रूप धरोधम सत्यं ब्रूहे न चेद् भस्म करिष्यामेन संशय शोब्रवीद्देव राजोऽहं पाहि मां किं कर्म मया कुचित् चेतथा गौतम क्रोध साम्राक्ष शापये योनि लम्पट दुष्टात्मन् सहस्र भगवान् भवे सप्त्वा तं देव राजानम् प्रविश्य स्वाश्रमम् धृतम् दृष्टा हल्यां वेपमानं प्राञ्जलिं गौतम्यवीत् दुष्टे तन्तिष्ठ दुर्वृत्ते शीरायामाश्रमे मम निराह दिवरात्रम् तपःपर ममास्थितः आत्पा निर्वति सही परमेश्वरं, पर ध्यां रामेकाग्र मनस हृदय संस्थित नाजंतु विहीनोय आश्रमो मे भविष्य एवं वर्ष सहसु जनकेमो दीमा आगमीष्युज यदा श्री शीला पादाभ्या तदैव धूत पापासम् रामम् सम्पूज्य भक्तितः परिक्रम्य नमस्कृत्य स्तुत्वा शापविशापाद् विमोक्षसे पूर्ववन् मम शुश्रूषाम् करिष्यसि यथा सुखम् इत्युक्त्वा गौतमप्रागात् हिम्बवन्तं न गौतमम् तदा रिहल्या भूतानाम् अदृश्या तव पादस्पशं काङ्क्षते पवनाशः अस्ति द्यापि न तपो दुष्कर्मस्थिता पावयस्व मुनिर्भार्याम् अहल्यां ब्रह्मणस्तु इत्युक्त्वा राघवम् अस्ति गृहीत्वा मुनिपुङ्गवः दर्शयामासहल्याम् उग्रेण तपसा रामशिलाम् पदा स्पृष्ट्वा तां चापश्च तबोधनम् न राघवोहल्याम् रामोहम् इति चाब्रवीत् ततो दृष्ट्वा रघुश्रेष्ठम् पीतकौशेयवाससं चतुर्भुजम् शङ्खचक्र लक्ष्मणेन समन्वितम् स्मितवक्त्रम् पद्मनेत्रम् श्रीवत्साङ्कितवक्षसम् नीलमाणिक्य सङ्काशम् द्योतयन्तम् दिशो दश दृष्ट्वा रामम् रमानाथम् हस्य विस्फारितेक्षण गौतमस्यैव च स्मृत्वा ज्ञात्वा नारायणम् परम् सम्पूज्य दण्डवयत् प्रणिपत्य स उत्थाय च पुनर्दृष्ट्वा रामं राजीव लोचनम् पुलकाङ्कित सर्वाङ्गा गिरा गद्गदयैलते अल्यावाच अहो कृतार्थास्मि जगन् निवासते पार्लव्यसंलग्नरजय कणानां स्पृशामि यत् पद्मज च शङ्करादिभिः विमृग्यते रन्दितमानसदा अहो विचित्रं तव रामचेतितम् मनुष्यभावेन विमोहितं जगत् चलस्य यस्त्रं चरणादिवर्जितम् सम्पूर्ण आनन्दमयोति मायिक यत्पादपङ्कज पराय पवित्र गात्रा भागीरथी भव विरीञ्चि मुखान् पुनासि साक्षात् एव मम दृग् विषयो किं वर्ण्यते मम पुराये कुशभागधेयम् मत्यावतारे मनुजा कुतिं हरिम् रामाभिधेयम् रमणीय देहीनम् धनुर्धरम् पद्मविशाल न परां भजिष्ये यत्पादपङ्कज रजे श्रुतिभिर्विमुग्र्यम् यन्नाभि यन्नाम सार रसिको भगवान् पुरारी तं रामचन्द्र मनिषं हृदि भावयामि यस्यावतार चरितानि विरिञ्चि लोके कायन्ति नारदमुखा भव पद्मजाद्या आनन्दजाश्रु परिशीक्षकुचाग्रश्रीम वागीश्वरी च तमहम् चरणं प्रपद्ये सोऽयम् परात्मा पुरुष एकस्वयम् ज्योति अनन्दाद्य माया तनुम् लोकविमोहनीयाम् धत्ते परानुग्रहेश राम अयम् हि विश्वोद्भव संयमानाम् एकस्व माया गुणबिम्बितो विरिञ्चि विष्णुईश्वर नाम भेदान् धत्ते स्वतन्त्रे परिपूर्णात्मा नमस्तु ते राम तवाङ्घृपङ्कजम् श्रिया धृतम वृक्षारित्रिया आक्रांतमेक जगत्रयुरा ध्येय मुनीन्द्रिए अभिमाजित जगता मिभूत जगत्म जगदश्रय सर्वूतेश संयुक्त एक भाति भवान ओंकार वाच्यम राम वाचा अवश्य पाच्यदक भेदेन भवानेव जगन्मयः कार्यकारणकर्तृत्व फलसा धन भेदतः एको विभासी राम तम् मायया बहुरूपया तन्माया मोहितधिय तां न जानन्ति तत्त्वतः मानुषम् त्वाभिमन्यन्ते मायिनं परमेश्वरम् आकाशवत् सर्वत्र बैरंतर्गत मल असंगो यचलो नित्य, शुद्धो बुद्ध सद व्यो येन्मूढ़ चत शोराम नमस्कूरिया मन नधी देव मे युरा स्थित तत्द कमले सक्ता भक्ति देव सदास्तु नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल नमस्ते तूषि केश नारायण निमोस्तु भवभयारमेकं भानुकोटि प्रकाशं कर धृतचरचापं कालमेघावभासं कनकरुचिरवस्त्रं रत्नवत् कुण्डलाढ्यम् कमलविशदनेत्रम् सानुजम् रामबीडे तु स्वम् पुरुषम् साक्षात् राघवम् पुरत स्थितम् परिक्रम्य प्रणम्यासु सानुज्ञाता ययो पतिम् हर्ययाय कृतम् स्तोत्रम् यः पठेद्भक्ति संयुत समुच्यते किले पापि परम् ब्रह्माधिगच्छति पुत्राद्यर्थे पठे भक्या राय चे संवत् न लंध्यापुत्रकनोती राद गुरुतल गोपी पुषे तीसरा तो कॉपी वी भातृभातुविंद भोगैक बद्धातुर नित्यं स्तोत्रमिदं जपन् द्रवपतिं भक्त्या हृदि संस्मरन् ध्यायन् मुक्तिमुपायति किं नर इति श्रीमद् ध्यात्मरामायणे उमामेश्वर संवादे वारकाण्डे अयल्या उद्धारणं नाम पञ्चम सर्ग